मुद्गलपुराण खंडम वन वक्रुंडचर ओम नम श्री स्वानंदेश गणेशा पूर्णयोगात्मे शौनकसूद संवाद नाम प्रथम श्रीगणेशा नम अध मन्मौद्गलपुराणप्रारम्भः ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धितं बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितं जिदं तेनाखिलं नानाब्रह्मवर्णनवर्णितं नानाजगत्समूहं वै गणेशेनो भयं कृतं भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तुयः नानावतारवान्सोऽपि नानाभेधरो बभौ तस्मै नमो गणेशाय नरकुञ्चररूपिणे सगुणो नररूपो यो निर्गुणो गजवक्त्रतः नमः शिवाय शान्ताय विष्णवे प्रभविष्णवे सूर्याय शक्तये चैव चतुर्धाते विभागिने ब्रह्माणं शेषनागं च नरं नारायणं सदा नमामि भावयुक्तोऽहं पुराणपुरुषं परं देवानां योगिनां चैव महर्षीणां महात्मनां व्रजामि शरणं नित्यं पुराणज्ञानसिद्धये पुराकल्पे भवन्विप्राशौनकाद्याः सुसाधनाः कलिदोषभयात्सर्वे नैमिषारण्यमाश्रिताः तस्मिन् कलियुगावासं ज्ञात्वा दौ ब्रह्मणो मुखाद् मुनिधर्मप्रसिद्ध्यर्थं कर्मज्ञानप्रसिद्धये अन्यच्च ब्रह्मणा प्रोक्तं सदा कलिदोषहरं पुण्यम् तदर्थमभवन्यथाः भक्तसंरक्षणार्थाय निर्गुणः सगुणास्तु यः नानावतारवान्सोऽपि नानाभेदधरो बभौ तस्मै नमो गणेशाय नरपुञ्जररूपिणे सगुणो नररूपोयो यो निर्गुणो गजवक्त्रतः नमः शिवाय शान्ताय विष्णवे प्रभविष्णवे सूर्याय शक्तये चैव चतुर्थाते विभागिने ब्रह्माणं शेषनागं च नरं नारायणं सदा नमामि भावयुक्तोऽहम् देवानाम पुराणपुषं परम देवा चहर्षीण महात्म नित्यं शरण निराण ज्ञान सिद्ध कल भवनकाद्या सुसाधना कलिद शर्वे नैमिषारण्यमाश्रिताः तस्मिन् कलियुगवासं ज्ञात्वा दौ ब्रह्मणो मुखाद् मुनिधर्मप्रसिद्ध्यर्थं कर्मज्ञानप्रसिद्धये अन्यच्च ब्रह्मणो प्रोक्तं पुराणश्रवणं सदा कलिदोषभरं पुण्यम् तदर्थमभवन्यताः कस्मिंश्चित्समये सुतो लोमहर्षणायययौ मुनीनां दर्शनार्थाय पुराणज्ञो विचक्षणः नैमिषारण्यशोभां च पश्यंस्तत्र सुविस्मितः अहो धन्यमहारण्यम् कलिदोषविवर्जितं दृष्टा वै मुनयस्तेन सुप्रसन्नाननाम्बुजाः नित्यनैमित्तिककरास्वधर्माचरणप्रियाः पञ्चयत्नरतास्तत्र वेदाध्ययनकारिणः ब्रह्मतेजः समायुक्ता ज्वलन्तः पावका इव विनास्तेन यथा सूर्यो योगिनो वेदवादिनः तारकास्सर्वजन्तूनां शौनकाद्या महर्षयः तत्रागत्य महाभागसूदो रोमहर्षणः साष्टाङ्गं प्रणदः पूर्वं परमाह्लादसंयुतः अभिवाद्यमुनीन् सर्वान् भक्त्या नम्रात्मकन्धरः प्राञ्चलिप्रयदो भूत्वा सूत उवाच वंशो धन्यो मदीयोद्य पितरौ च कुलं वयः विद्याव्रतं तपोज्ञानं धन्यं सर्वं मुनीश्वराः भवतां पादपद्मं च सर्वाशुभविनाशनं काङ्क्षितं यत् सदा मया दृष्टं सुपुण्यतः साक्षाद्ब्रह्मस्वरूपा वैब्राह्मणा ब्रह्मवित्तमाः येषाम् दर्शनमात्रेण कृतकृत्याश्च जन्तवः कृतार्थोऽहम् कृतार्थोऽहम् कृतार्थोऽहम् न संशयः भवतां दर्शनेनैव मुक्तोऽहं भवसागराद यदि ब्रुवाणं साधुं तं सूदं वै रोमहर्षणं प्रत्यूजुर्ब्राह्मणाः सर्वे भक्तियुक्तं तपोधनाः ब्राह्मणाऊजुः सुदसूदमहाभागस्ति यदा पुण्यवर्धन तव दर्शनमात्रेण सन्तुष्टा स्मो खलु इत्युक्तस्तत्र सूतस्तु मुनिदत्ते शुभासने समासीनो महाबुद्धिः सञ्चलिः सन्प्रतापवान् सुखासीनं च सूतं तं दृष्ट्वा तत्र महामुनिः भृगुप्रेष्ठश्च मुख्योऽसौ मुनीनां प्रत्युवाचः शौनक उवाच सुदसूदमहाभाग सर्वज्ञ आराधितस्त्वया प्राज्ञकृष्णद्वैपायनो महान् नारायणावतारो यः साक्षान्नारायणस्वयं वेदस्य भागकारी पुराणानां विभागकृत त्वं वै तस्मात् पुराणानि सेतिहासानि वेत्सि तेन सर्वज्ञता तवेयं पुण्यवर्धन वय भीताल नलिकलू भुवा, तत्र स्वयंुवा वै प्राप्तोसि वैंसी महाद्युति प्रवक्ताच, प्रवक्ता चुन्यवान््यवर्धन यत्र पौराणिकीकधा कलिस्तत्र न तिष्ठति तस्मात्कारुण्यभावेन पुराणं ब्रूहिणः प्रभो तव यद्दर्शनं जातं महापुण्येन सत्तमधन्यं धन्यं महाभागसाक्षात् संशयच्चित्स्वयं चेदेन संशयानां वै सदां त्वं रोमहर्षणं करोषिते न ते रोमहर्षण इत्यहो यदि पृष्ठो महात्मा स शौनकेन महर्षिणा संहृष्टः वचनं धर्म संस्कृतं सुत उवाच अध्यासं कृतकृत्यो वै कृतोऽनुग्रहकारिणां सकलं कथयिष्यामि व्यासेन कथितं च यद इत्युक्त्वा कथयामास पुराणानि स कृष्णशः नानाख्यानविभक्तानि नानाधर्मयुधानि च दुःखनाशकराणि च ब्रह्मभूतप्रधान्येव नानामतयुतानि च पुराणोपपुराणानि सेदिहासनि भागशः धर्मार्थकाममोक्षाणां धाधृत्वा पुण्यदानि च श्रुत्वा श्रुत्वा मुनीन्द्रास्ते बभु विरे नित्यं हर्षयुक्ता भावदह। न्यम प्रमुदी दीदूर्ण युग्योत्क्रमण तय चक्रुस्ते मुनयोखिला पुराण सर्वदह। नानाभेदमदादीनिश्रुत्वा भ्रान्ता मुनीश्वराः निश्चयं नाधिगच्छन्ति परं किं सर्वसम्मतं तदर्थं मुनिवर्यस्तं पर्यपृच्छत्स शौनकः शौनक उवाच भोभो भो, भो सूदमहाभाग शृणु मे वचनं लघु पुराणानिजसंश्रुत्यभ्रान्ता स्मो वै महाद्युदे इदं परमिदं नेदि त्वया सर्वत्र वर्णितं भिन्नं भिन्नं महाबुद्धे तेननो नो निश्चयकथं कुत्रापि शङ्करश्रेष्ठः कुत्र विष्णुस्तथा रविः शक्तिश्चैव गणेशश्च विराजः कुत्र रूपकं कुत्र ब्रह्म च योगश्च ज्ञानं कर्म च कुत्र वै आत्मा प्राणोन्नमित्युक्तं मनो वै परतः परं कुत्र इत्यादिमदभेदेन निश्चयो नैव जायते अत त्वं कृपया ब्रूहि वेदशास्त्रार्थसम्मदं सर्वेषां मान्यमेकं च इति पृष्ठो महातेजाशिष्यो व्यासस्य सप्तमः एकं श्रुतिस्मृतीनां यत्सारं कथितुमारभद सुत उवाच शृणुध्वं मुनयत्सर्वे सारं मुद्गलभाषितं सर्वश्रुतिस्मृतीनां च सर्वमान्यं विशेषतः पुरा दक्षाध्वरे जातं यज्ञविध्वंसनं महद रुद्रेणागत्य सहसा कृतो विघ्नो महत्तरः देवाः पराजितात् सर्वे रुद्रैः परमदारुणैः दक्षमस्तकसञ्चेदो वीरभद्रेण वै कृतः ब्रह्मणागत्य तत्रासौ सान्त्वितो बहुलोक्रिभिः शङ्करो जीवयामासा दक्षं योगेन तत्वतः यज्ञविध्वंसशोकार्तो दक्षशापेन मोहितः अज्ञानावरणेनापि न किञ्चिन्निश्चयं ययौ तत्रा जगाम भगवान सूर्य भगवान्वोदिद वेद शास्त्रो योगींद्रो मुद्गलो भक्त प्रवर गणेशवरस्यो महायशाः तपसाम कर्मण साक्षा निधिरेष सनातन तं दृष्ट्वोद्धाय दक्षोऽसौ प्रणनाममहामुनिम् आसनाद्यै सुसम्पूज्य वक्तुं समुपचक्रमे दक्ष उवाच भोभो मुनीन्द्रवन्द्यस्त्वमाङ्गिरस महाद्युदे यज्ञविध्वंसशोकार्थं माम् पालय जडीकृतं मुद्गल उवाच मा चिन्तां कुरु भो दक्षप्रजापालेन्द्रसत्तमविघ्नराजं स्मर त्वं वैतेन सर्वं न दुर्लभम् ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरि शौनकसूतसंवाद प्रथम ओ